नारदपुराणं पूर्वार्थं अध्यायं 24 फोर् सूत उवाच एतन्निशम्य सनगोधिदमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च पापौखशान्तिकरणं व्रतसारमेवं ब्रह्मात्मज पुनरभाषदहर्षयुक्तः नारद उवाच कथितं भवदा सर्वं मुने तत्त्वार्थकोविद व्रदाख्यानं महापुण्यं यथावद्धरिभक्तिदम् इदानीं श्रोतुमिच्छामि वर्णाचारविधिं मुने तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा यदत्सर्वमहाभाग सर्वतत्त्वार्थकोविद कृपया परया मह्यं यथावद्वक्तुमर्हसि सनक उवाच शृणुष्व मुनिशार्दूल यथा भक्तप्रियङ्करः वर्णाश्रमाचार परैपूज्यते हरिरव्ययः मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनं तत्ते वक्ष्यामि विधिवद्भक्तसि त्वमधोक्षजे ब्राह्मणः क्षत्रिया वैश्या शूद्राश्चत्वार एव ते वर्णा यदि समाख्याता ये देषु ब्राह्मणोऽधिकः ब्राह्मणः क्षत्रिया वैश्या प्रोक्तास्त्रयस्तथा माधृतश्चोपनयनाद्विजत्वं प्राप्यते त्रिभिः यदैर्वर्णै सर्वधर्मकार्यवर्णानुरूपदः युगधर्मपरिग्राह्यो वैर्णैरेदैर्यथोचितं देशाचारस्तदा ग्राह्यस्मृति धर्माविरोधतः कर्मणा मनसा भजा यत्नद्धर्मं समाचरे द समुद्र अस्वर्ग्यं विधारणं धर्म्यमाप्याचरेन्नु समुद्रयात्रास्वीकारकमण्डलुविधरणं द्विजानामसवर्णसु कन्यासूपयमस्तद्धा देवरा च सुधोत्पत्तिर्मधुपर्के पशुर्वधः मां सादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा दत्ताक्षताया कन्याया पुनर्दानं वराय च न इष्ठिकं ब्रह्मचर्यं च नरमेधाश्च मेधकौ महाप्रस्थानगमनं गोमेधश्च तथा मघः येद्धान् धर्मान् कलियुक्के र्ज्यानाहुर्मनीषिणः देशाचारा परिग्राह्यास्तद्देशगदैनरैः अन्यथा परितो ज्ञेय सर्वधर्मबहिष्कृतः ब्राह्मणक्षत्रियविषां शूद्राणां च द्विजोत्तमप्रिया सामान्यतो वक्ष्ये तच्छृणुस्वसमाहितः दानं दद्याद्ब्राह्मणेभ्यस्तदा त्यज्ञजेत् सुरान् वृत्त्यर्थं याजये चैव अन्या न ध्यापयेत्तथा याजयेजने योग्यान् विप्रो नित्योदगी भवेत् कुर्या च वेदग्रहणं तदा ग्रेष्टपरिग्रहं ग्राह्ये द्वे पारक्ये समबुद्धिर्भवेत् तदा सर्वलोकहितं कुर्यान्मृदुवाक्यमुदीरयेद् हृदावभिगमपत्न्यां शस्यदे ब्राह्मणस्य वै न कस्याप्यहिदं ब्रूयाद्विष्णुपूजा दद्यादानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम कुर्याश्च वेदग्रहणं यज्ञैर्देवान्यजेत्तथा शास्त्राजीवी भवे चैव पालये धर्मदो महीं दुष्टानां शासनं कुर्याच्छिष्टानां पालनं तथा पास्यु बाल्यं च वाणिज्यं कृषिंश्च द्विजसत्तम चैव वैश्यस्याभिप्रकीर्तितं कुर्याश्च दारग्रहणं धर्मश्चैव समाचरेद क्रय विक्रयजर्वाभि धनैः कारुक्रियोद्भवैः दद्या दानानि शु शूद्रोऽपि पाकयज्ञायजेन्न च ब्राह्मणक्षत्रियविशां शुश्रूषा निरतो भवेद् ऋदुकालाभिगामी च स्वदारेषु भवेत्तदा सर्वलोक इदोषित्वमङ्गलं प्रियवादिता अनायासो मनो हर्षस्थितिक्षानादिमानिता सामान्यं सर्ववर्णानां मुनिभिपरिकीर्तितं सर्वे च मुनितां यान्दिश्रमोचितकर्मणा ब्राह्मणः क्षत्रियाचारमाश्रये क्षत्रियोऽपि ज विद्वृत्तिमत्यापधिसमाश्रयेत नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै यद्याश्रये द्विजो मूढस्तदा चाण्डा सदां व्रजेद् ब्राह्मणक्षत्रियविश्यां त्रयाणां मुनिसत्तमा चत्वार आश्रमप्रोक्ताः पञ्चमो नोपपद्यते ब्रह्मचारी गृहीवानप्रस्थो भिक्षुश्च सतम चतुर्भिराश्रमयुरेभिसाध्यते धर्म उत्तमः विष्णोस्तुष्यति विप्रेन्द्रकर्मयोगरदात्मनः निःस्पृहा शान्तमनसः स्वकर्मनिरतस्य च ततो याधिपरं स्नानं यतो न पुनः इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विंशोऽध्यायः ओम्